श्रीमद्भागवतमहापुराणं दशमस्कन्धम् अधिष्ठं पञ्चाशत्तमोऽध्यायः शमन्तकमणि की कथा जाम्बुवन्ती और सत्यभामा के सा श्रीकृष्ण का विवाह विवाहः श्रीशोकुवाच सत्राजितसतनयां कृष्णाय कृतकिल्बुषः शमन्ते समन्तकेन मणिना स्वयं उद्यम्य दत्तवान् जवाच सत्राजितः किं करोद् ब्रह्मन् कृष्णस्य कल्बिषम् शमन्तक कुतस्तस्य कस्माद्दत्ता सुता हरेः श्रीशुकुवाच आसीत सत्राजित सूर्यो भक्तस्य परमः सखा प्रीत तस्मै मणिम् प्रादासूर्यतुष्ट शमन्तकम् स तम् बिभ्रण्मणिम् कण्ठे भ्राजमानो यथा रविः द्वार प्रविष्टो द्वारकाम्राजस्तेजसा नोपलक्षितः तं विलोक्य जनादूरात्तेजसामश्रुधिश्चयः दिव्यतेक्षये भगवते सशंसो सूर्यशङ्किताः नारायण नमस्ते स्तु शङ्कचक्रगदाधर दामोदरारविन्दाक्ष गोविन्दयजुनन्दन एष आयाति सविता त्वां दिक्षुर्जगत्पते मृष्णन् गभस्ति चक्रेण नृणां चक्षुंसु तिङ्मगो नन्वन्विक्षन्त ते मार्गं त्रिलोक्याम्बु विदर्शभाः ज्ञात्वाद्यगूढं यदशो द्रष्टुं त्वां जाद्यज प्रभो शेषु कुवाच निसंबालवचनं प्रहस्याम्बुजलोचलम् प्राहनासौरविर्देव सत्राजिन्मलिना ज्वलन् तत्राज स्वगृहं श्रीमन्कृतकौतुकमङ्गलम् प्रविश्य देवसदने मलिं विभ्रयेणवेषयत् दिने दिने स्वर्णभारानष्टौ स श्री श्रीप्रभो दुर्भिक्षमादिष्टानि सपा सर्पाधिव्याधयो शुभाः न शन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणिः सयाचितो मणिं क्वापि यजुराजाय नेवार्सकामुक नैवार्षकामुकप्रादाज्ञां चां भङ्गमतर्कयन् तमेकदा मणिम् कण्ठे प्रतिमुज्य महाप्रभम् प्रसेनोह्यमारुह्य मृगयां व्यचरज्वने प्रसेनम् सहयम् हत्वा मणिमाच्छिद्य केसरी गिरिम् विषं जाब्जवता निहितो सोऽपि चक्रे कुमारस्य मणिं क्रीण कुम्बिले अपश्यन्भ्रातरं भ्राता सत्रादिपर्यतप्यत प्राय कृष्णेन निहितो मणिग्रीवो वनं गतः भ्राता मामेति तच्छ्रुत्वा कर्णे कर्णे पञ्जनाः भगवान् तदुपुंसृत्य दुर्दशो दिप्तमात्मने माष्ट्रुं प्रसेन पदवीम् अन्नपद्यतनागरे हतं प्रसेन मश्वं च वीक्षके शरिणावरे तं चाद्रिपेष्ठेन हितवृक्षेण दाद्रिसूर्यजनाः ऋक्षराजम्बिलं भीमम् अन्धेन तुमसावृतम् एको विवेश भगवान। अवस्थाप्य बहिः प्रजाः तत्र दृष्ट्वा मणिं श्रेष्ठं बालक्रीडनकं कृतं हर्तुं क्रीतम् अति तस्मिन्नभस्थेर्भकान्तिके तमपूर्वं नरं दृष्ट्वा धात्रीचुक्रोश भीतवत् तच्छ्रुत्वाभ्यद्रवद्गुद्धो जाम्बवान् बलिनां वरः स वै युधे स्वामिनात्मनः पुरुषं प्राकृतं मत्वा कुपितो नानुभाववित द्वन्द्वयोद्धं सुमूढम् उभयोर्विजिगीषतोः आयुधास्तमद्रुमैर्दोर्भिः क्रव्यार्थेशेनयोरिव